मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायं तर्टि सेवेन् परशुरामचरितकथनं श्रीगणेशाय नमः मुद्गल उवाच गदवर्षसहस्रे स तपतो राय यौ प्रभुः भार्गवयोर विघ्नेश्वरो भार्गवयोर्वरदस्तावुवाचः रेणुकेजमदग्न्यत्वं वृणु मे एकाक्षर विथानेन तपसा तोशितो भवं तस्य तद्वचनं श्रुत्वा हर्षयुक्तौ बभूवधुः ऊच दुर्गणराजन्तौ भक्रिभावसमन्वितौ धन्यो वंशो गणेशानदर्शनेन तथा वयोः तपःस्वाध्याय एवं त आवयोर्नात्र संशयः एवमुक्त्वा प्रणम्यैनं पूजयन्तौ गणेश्वरं सरोमाञ्जौ तुष्टुवदुष्प्रहर्षेण प्रजापदे रेणुका जमदग्नीजदुः नमस्ते विघ्नपालाय भक्तानां विघ्नहारिणे विघ्नकर्त्रे ह्यभक्तानां ब्रह्मभूदाय नमः अनादये त्वनाधारवक्रतुण्डस्वरूपिणे गणेशान अनन्तानां गणानां पदये नमः नाना नाना नाना शक्ति भेद भेद नानाभेदा हेरंबाय, नमो सिद्धि बुद्धि सहायाय, सिद्धि बुद्धि चुंठए सिद्धिबुद्धिसहाय सिद्धिबुद्धिवराय चनंदपतुभ्यं भक्तेभ्यो योगदायिने योगाकाराय योगाय शान्तिदाय नमो नमः अखण्डानन्दरूपाय भुक्तिमुक्तिप्रदाय च लम्बोदराय देवाय चैकदन्ताय दे नमः महोदराय विघ्नानां पदये सुखदायिने मूषकध्वजिने तुभ्यं नमो मूषकवाहन चतुर्भुजाय सर्वेषामादिपूज्याय भोगिने ज्येष्ठराजाय सर्वेषां पितृमातृस्वरूपिणे यं स्तोदुम्न समर्थाश्च वेदा देवा शिवादयः योगिनस्तं कथं चावां हस्तस्त्वां प्रणमावहे एवं स्तुत्वा गणेशानं प्रणदौ भक्तिसंस्तुतौ तावुधाप्यगणाधीश उचिवान्हर्षसंयुतः वरं च वृणुतं पुत्रौ दास्यामि मनसीप्सिदं यमिच्छो महाभागौ भक्तिभावनियन्त्रितः गणेशवचनं श्रुत्वा दम्पती तमथो चतुः प्रणम्य च पुनः पादौ स्पृष्ट्वा तौ ताव। हर्षसंयुतौ तावू चतुः यदि प्रसन्नभावेन वरदोऽसि गजानन तदा ते पादपद्मे नौ भक्तिं देहि सुखप्रदाम् योगशान्तिं च विघ्नेश देहि योगेश नौ परा गाणपत्यप्रियां चैव सदा ह्यानन्ददायिकाम् ओमित्युक्त्वा गणाध्यक्षः पुनः प्रोवाच तौ तदा दृष्ट्वा भक्तिं तयोर्भावं भक्तेभ्यः सुखदायकः भवत्कृतमिदं मे यत् स्तोत्रं योगप्रदं भवेद् यो यदिच्छदि तत्तस्मै दास्यामि स्तोत्रपाठतः जमदग्ने सदा शान्तो भव मे भक्तिकारकः रेणुके देहयुक्तास्त्वं भज मां योगभाविता लोकास्त्वमस्तकाकाराम् पश्य संशय ज्ञान दृष्टा तथा साश्येयर्दादयुक्त सौ गणेशो ब्रह्मनायकः रेणुका जमदग्निस्वाश्रमस्थ बभूवधु तद कदाचिद्रामस्थ प्रणिपत कृताञ्जलिः उवाच पितरौ वाक्यं साक्षाद्विष्णुः प्रतापवान् श्रीराम उवाच अर्जुनं सहनिष्यामि तथा निःक्षत्रियां धरां करिष्यामि न सन्देहः पितरौ भवदाज्ञया ततस्थं जमदग्निश्चोवाच हर्षसमन्विदः मा कुरुष्वृथा हिंसाम् रामगर्वं परित्यज तदस्तं भार्गवं राम उवाच विनयान्वितः मातुरग्रे प्रतिज्ञा च मुनीश्वर कृदा मया तां सत्यां प्रकरिष्यामि मातृभक्तिपरायणः देहत्यागं करिष्यामि तदर्थमथवा मुने तस्याग्रहम् समालोक्य न्यगदत्पुत्रमादराद शङ्करम् गच्छ भोराम स तेऽभीष्टम् करिष्यति तौ प्रणम्य जगामासौ कैलासे शङ्करम् प्रभुः प्रणिपत्य महेशानम् स्तुत्वा तम् चाब्रवीध्वजः कार्तवीर्यं हनिष्यामि कुर्वे निहिक्षत्रियां धराम् एकविंशतिवारं च तत्रोपायं वद प्रभो तद एकाक्षरं मन्त्रं गणेशस्य ददौ शिवः रामाय तं प्रगम्याशु वनं प्रायान्महाबलः पूर्वजन्मनिदेवस्य गणेशस्य कृतं तपः वामनेन च तत्स्मृत्वा तस्मिन् तपसि संस्थितः वायुभक्षस्तदो मन्द्रं जजापध्यानसंयुधः समाधिना महोग्रेण तोषयामास विघ्नवं गदे वर्षशदे पूर्णे आयह्यौ तं गजाननः भक्तं भक्र्या समायुक्तम् महोग्रतपसायुधम् उवाच तं महाभागं भार्गवं विष्णुमव्ययं वरं वृणुमहाभागभक्र्या दास्यामि भावदः श्रुत्वा तस्य वचोरम्यमुद्धाय गणपं द्विजः ननाम दण्डवद्भूमौ तं पुपूज विशेषदः पूजयित्वा पुनर्नत्वा तुष्टावप्रकृताञ्जलिः रामो भक्तिरसेनैव सम्प्लुदः साश्रुलोचनः राम उवाच नमस्ते गणनाथाय भक्तानन्दविवर्धन भक्तिप्रियाय देवाय हैरम्भाय नमो नमः वेदान्तवेद्यरूपाय मनोवाणी च मनोवाणी विहीनायगा नम गजवभ्यं निर्गुणत्मधारिणे सगुणा चंडाधो नाकारा ते नम आदि सर्वदाने आदिपूज्याय नाना विघ्न प्रचालक विघ्नखन्द्रे सुभक्तानां विघ्नकर्त्रे दुरात्मनां सदा स्वानन्दनाथाय धुण्डिराजाय ते नमः वक्रतुण्डाय नमो नाथ नमो वै सततं शान्तिरूपाय शान्तिदाय नमो नमः महोदराय सिद्धेश्च बुद्धेश्च पदये नमः नानैश्वर्यप्रदात्रे ते भ्रमदाय नमो नमः नानाज्ञानप्रभेदैश्च मोहकर्त्रे नमो नमः सुभक्तानां सदानाथ भ्रममोहाधिहारिणे नानादैत्यनिहन्त्रजदेवानां मदहारिणि सुरासुरमयायैव भ्रमेशाय नमो नमः सर्वत्र योगरूपेण संयोगयोगहीनदः संस्थितं तं कथं स्तौमि त्वां विघ्नेशवदप्रभो यं समर्थागणाध्यक्षयोगिनः शेषगादयः शिवादयश्च वेदा वै न प्रभवन्दिदे तं किं स्तौमि गणाधीशमधस्त्वां प्रणदो भवं तेन तुष्टश्च मां नाथ पालयस्व त्वदाश्रितम् एवं सांस्तु वतस्तस्य भक्तिभावेन मानद भक्त्या रोमोद्गमप्राप्तकण्डरोधो बभूवः ननर्तपरमानन्दयुक्तोऽसौ भार्गवाग्रणीः जय विघ्नेशहैरंब गि वदा तम तथा भक्तिसम वीक्ष्य देवो गन उवाच साश्रुनेश सरो मंच प्रजापते राम राम महाभागृणु मे परम वचि सर्वे न भक्त मग्नदां गदः त्वया कृतमिदं स्तोत्रं भवेद्भक्तिरसप्रदं पठिष्यति च यश्चैदच्छृणुयात् सततं तस्याकं सकलां बाधां नाशयिष्यामि नित्यदा इह भुक्त्वा किलान् भोगानन्दे स्वानन्दगो भवेत् यदि चिन्तयदि तप्त केश मम मा सोपि भविताशय परसुम्मे मे तेन तेना मतल्य गो भव श्यसीमीरमर्जुनम राजभिर्वृद नित्रियां तथा पृथ्वी क्यसि न संशय एकविंशतिवारं त्वं सदा जयसमन्वितः नाम दे सर्वविख्यातं भविष्यति शुभप्रदम् उक्तं परशुरामेदि स्मरणेन सुखप्रदं यज्ञान् महाभाग यश भूतले शान्तियोगस्तभावेन मां भजिष्यसि नित्यदा एवमुक्त्वार्दधेसौ जामदग्न्यं गणेश्वरः रामः संस्थापयामास गणेशं ब्राह्मणैस्ततः सम्पूज्य स्वगृहं रामो ययौ हर्षसमन्विदः रेणुकां जमदग्निं ननाम परशोर्धरः तयोराज्ञां गृहीत्वा सभ्रातृभिश्च समन्वितः जुहाव कार्तवीर्यन्तं महाबलपराक्रमं सिद्ध्यायश्च कवचैर्युक्ता राजानः सर्व आगताः अवध्या सर्वभावेन देवादीनां महाबलाः गणेशवरदानेन परशोस्तेजसा प्रभुः रामः सर्वांश्च सङ्ग्रामे मारयामास यत्नदः कार्तवीर्यं तं जघान स रोषदो दृढं युद्धं कृत्वा महाघोरं बाहूं स्थिच्छेदलीलया ममारकार्तवीर्यश्च परशुना च प्रजापदे ततः स रामः क्षत्रियाणां वधेरदः निःक्षत्रियां धरां तत्र चकारक्रोधसंयुगः पुनर्ब्राह्मणवीर्येण क्षत्रियाप्रबभूविरे रामेण ते पुनः सर्वे हदाः क्षत्रकुलोद्भवाः निःक्षत्रियां धरां दक्ष चकारस पुनः पुनः एकविंशतिवारं च कृत्वा निःक्षत्रियां धरां क्षत्रियाणां च रक्तेन तर्पयामास पूर्वजान् यज्ञं कृत्वा ददौ पृथ्वीं ब्राह्मणेभ्यो महायशः समुद्रेण ततस्तस्मै दत्ता पृथ्वीभया द्विधे तत्रायं संस्थितो रामो भजदे गणनायगम् अनन्य भाव अन्य भावुक्त गाणपत्योधुनादंका च महाद्भुत जमदघ्ने रेणुकाया चं कथिम मैयाशोदि नरो भक्त पढ़े तय संभवेद। भोक्ति मुक्ति प्रदम दक्ष चिंतादम पर सदी श्रीमन मौद्गले महापुराणे महोदर तृतीय खंडे महोदरचरि परशुरामचरकथनम सप्तत्रिंशोध्याय ओं